नारदपुराणम् उत्तरार्धम् अध्यायम् सिक्स्टी नैन् अथ सिद्धनाथचरित्रसहितम् कामाक्षा माहात्म्यम् मोहिन्युवाच श्रुतम् कामोदकाख्यानम् पापघ्नम् पुण्यदमृणाम् साम्प्रदम् श्रोतुमिच्छामि कामाक्षा फलम् द्विजा वसुरुवाचा कामाक्षा परमादेवी पूर्वस्यां दिशि संस्थिता सागरानुपतडगकलौ सिद्धिप्रदा नृणां यस्तत्र गत्वा कामाक्षां सम्पूज्य नियतासनः तिष्ठेदेकां निशां भद्रे स पश्येतां दृढासनः सा देवी भीमरूपेण यादिसन्दर्शनं नृणां तां दृष्ट्वा चलेद्यो वै सिद्धिं वाञ्छितां लभेद यस्तु दृष्ट्वा सुरेशानीं कामाक्षां भीमरूपिणीम् आसनचलितः सद्यः स विक्षिप्तो भवे ध्रुवं तत्रास्ते पार्वतीपुत्रसिद्धनाथोवरानने उग्रे तपसि लोकैः सप्रेक्ष्यते न कदाचन कृदत्रे दाद्वापरेषु प्रत्यक्षं दृश्यदेखिलैः कलावं तर्हिदस्तिष्ठेद्यावत्पादकलेर्व्रजेद का कले पादे गदे चैकस्मिन् खोरे च धरातले स वै प्रत्यक्षदां प्राप्य साधयेदखिलं जनम् मोहिनाद्यैरुपायैस्तु म्लेच्छ प्रायाञ्जनां तदा कृत्वा वशे महाभागे गमये त्रिपदं प्रलेहे यस्तत्र गत्वा सिद्धे शम्भक्त्रिभावसमन्वितः चिन्तयेद्वर्षमात्रं तु कामाक्षां स लभ्ये दर्शनं स्वप्ने दर्शनां दे समाहितः सूचितां तेन सिद्धिं स लब्ध्वा सिद्धो भवेद्भुवि विचरे सर्वलोकानाम् आमानाः पूरयन् शुभे त्रिलोक्यां यानि वस्तूनि तानि द्वराद। मस्य नाथ किल तत्र संस्तो विज्ञानपारङ्गम एव भद्रे चचारलोकाभिमतं विधन्वंस्तपो धिघोरं न च याधिहृष्टिं युगान्यनेकानि पुरा भ्रमित्वा लोकान् समग्रा नकचेष्टगत्या तपस्थितोद्यास्ति महानुभावो न कालवेगेन शुभेऽभिभूतः गण्डादजातस्तु पुरा भवे भू द्विजस्य कस्यापि सुभद्रे स सु जातमात्र किलपुष्पराख्ये द्वीपेस्य पित्रा स्युदधौ विसृष्टः प्रक्षिप्तमात्रं किल तत्र बालं मत्स्योऽग्रसी कोऽपि विधेर्नियोगाद तत्र स्थितो नेकयुगानि शोभूत्कालस्य गत्याज रामराङ्गः तदा प्रियया प्रदिष्टो महेश्वर सार्धमगप्रसूत्या तत्तोपदेशायजकामभद्रे सलोकलोकाच लमप्रमेयः तत्सौम्यशृङ्गे मणिभिः प्रदीप्ते स्थित्वा क्षणार्थं हरिमग्नचेदाः देवि मुमां सम्प्रति बोध्यशक्त्या तालत्रयेणाख्यभिभूय सत्वान् उवाच तत्त्वं सुरहस्यभूतं यद्वा दशार्णार्थनिजस्वरूपं तदस्तु सा शैलसुधा महेशं मारान्तका यावदभिप्रणम्य अज्ञायतत्त्वं समवस्थिताभूत् तावत् मत्स्यस्तु महार्णवत्कः ्रुदं समुत्प्लुत्य जगामशृङ्गं यो विप्रभालो ह्युदरे स्थितोस्य स तत्त्वसिद्धोऽखिलबन्धमुक्तः निर्गम्य मत्स्योदरदशुभास्ये नम प्रचक्रेभयो पुरसाद विज्ञाद तत्त्वोऽपि महेश्वरस्थं पप्रच्छ तद्गर्भगदेर्निदानम् सवर्णयामास यथार्थमेव तयोः पुरः सर्वमपि प्रवृत्तम् आकर्ण्य तद्वृत्तमनुप्रसन्ना सोमा महेशानुमतिं च कृत्वा तं कल्पयामास सुतं शुभाङ्गे सोत्सङ्ग आस्ताप्य चुचुम्बवक्त्रं सुधो मम सिद्धनाथः निज् निजेच्छया सम्प्रति यादि लोकान् कीर्तिं वितन्वन् सुखमावयोश्च तदप्रभृत्येष सुतो विहाय लोकान् समग्रान् प्रविहृत्य कामं तत्सिद्धपीडं समवाप्य तत्र तपस्युपादिष्टैव स्थितोस्ति तं नरो मनसा विचिन्त्य नरो भवेसिद्धसमस्तकामः सम्प्राप्य विद्यां निजवाक्यवाहे निमज्जयेत् पण्डितवर्गजातं येतां कथां तस्य जगत्पवित्रां शृणोति यः कर्ण कथप्रयाताम् स चाभिकामं समवाव्यभूमौ स्वर्गं प्रयात्येव सुरार्चिताङ्घ्रिः यदन्मयादेकथितं सुनेत्रे श्रीसिद्धनाथस्य चरित्रयुक्तं कामाक्षमाहात्म्यमख्नमाद्यं भूयोऽपि किं ते प्रवदामि भद्रे इति श्री बृहन्मारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे सिद्धनाथचरित्रयुक्तं कामाक्षमाहात्म्यं नामैकोन्न सप्ततितमोऽध्यायः ॐ इति सिद्धनादचरित्रसकितम् कामाक्षा माहात्म्यम् समाप्तम् ओम्